श्रीमद्भागवत् महापुराणं दसंस्कन्ध अथ सप्तविंशोऽध्यायः श्रीकृष्णकाभिषेक् श्रीशोकुवाच गोवर्धने धृते शैल पस्परसपादियोरेणं किरीटेनार्कुवर्चसा दृष्टसुतानुभावोश कृष्णस्यामिततेजस नष्ट त्रिलोके समद इन्द्र आह कृताञ्जलिः निन्द्र उवाच विशुद्धसत्त्वं तबधाम शान्तं तपोमयं धस्तरजस्तमस्करम् मायामयोऽयं गुणसम्प्रवाहो कुतो तद्धे तव ईश तत्कृता लोभादयो ये बुधलिङ्गभावाः तथापि दण्डं भगवान् बिभरति धर्मस्य गुप्तै खल निग्रहाय पिता गुरुस्त्वं जगतामधीशो दुरत्यकाल उपात्तदण्डः पिताय स्वेच्छातनुभिः समीहसे मानं विधुन्वन् जगदीशमानिनाम् ये मद्विधाज्ञां जगदीशमानिन त्वां वीक्षकाले भयमासृदन्तन्मदं हत्वार्यमार्गं प्रभजन्तपस्मयाम् इहा खलानामपि तेऽनुशासनं स त्वं ममैश्वर्यमदं प्लुतस्य कृतागशस्ते विदुषप्रभावम् क्षन्त्वं प्रभूथार्हसि मूढचेतसोमैवं पुनर्भुन्वतिरी समे सती तवावतारोऽयमोत् मोक्षजेह स्वयंभराणां मुरुभारजन्मनां चमूपतन् पतीनाम् अभयाय देव भवाय यस्मश्चरणानुवर्तिनां नमस्तभ्यं भगवते परुषाय महात्मने वासुदेवाय कृष्णाय सात्वतां पतये नमः स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः नयेदं भगवन्गोष्ठां नासा यासारवायुभि चेष्टितं विहते यज्ञे मानिनातिब्रह्मण्युना तमेषानुगृहीतोऽस्मि ध्वस्तम्भो वृथोद्यमः ईश्वरं दुर्मात्मानं तमा स्वामं शरणं गतः श्रीशुकुवाच देवं सङ्कर्तितः कृष्णो मघुना भगवान्मुं मेघगम्भीर्यावाच प्रसन्निदमब्रवीत श्रीभगवानुवाच दयातिकारी मघवन्मखभङ्गो नुगृह्णता मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रियाभृषम् मामैश्वर्य श्रीमदान्धोदण्डपाणिं न पश्यति तम्भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् गम्यतां शक्रभद्रं व्रियतां मेऽनुशासनं स्थीयतां स्वाधिकारेषु युक्तैर्व स्तम्भवर्जितैः तथाह सुरभि कृष्णम् अभिवन्द्य मनस्विनी स्वसन्तानैरूपामन्त्र गोपरूपिणमीश्वरम् सुरभिर्वाच कृष्णकृष्णमहायोगिन् विश्वात्मन् विश्वसम्भव भवता लोकनाथेन स नाथा वयमच्युत त्वं न परमकं दैवं त्वं न इन्द्रो जगत्पते भवाय भव गोवी प्रदेवानां ये च साधव निन्द्रं न स्वाभिषीक्षामो ब्रह्मणा नोदिता वयम् अवतीर्णोऽसि विस्वात्मन् भूमिर्भारापनुदये श्रीशुकुमाच एवं कृष्णमुपामन्त्रसुरभि पयसात्मनः इन्द्र सुरर्षिभिशाकं नोदितो देवमातृभिः अभ्यसिञ्चद् दासार्हं गोविन्द इति चाभ्यदा तत्रागतास्तुम्बुरून्नारदादयो गन्धर्वविद्याधरसिद्धचारणाः जगुर्यशोलोकमलापहं हरे सुराङ्गना सन्नितो मृदान्विताः तं तुष्टुपुरुर्देवनिकायकेतवो दवाकिरश्चाद्भुतपुष्पवृष्टिभि लोकापराम निर्वितमाप्नुवस्त्रयो गावस्तदा गामलयन् पयो धृतां नानालसौघाः सरितो वृक्षा आसन् मधुस्रवाः नकृष्टपच्चौ सधयो गिरियो विभ्रतून्मणिन् कृष्णेऽभिचिक्त एवादेतानि सात्वानि गुरुनन्दन निर्वैराण्य भुमस्तात् क्रूराण्यपि निसर्गतः इति गो गोकुलपतिं गोविन्दम् अभिषिञ्चस अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवं ति श्रीमद्भागवते महापुराणे पारहंसां चैतायां दशं स्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः